ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे सुदेवपुत्रजीवनन्नाम अष्टादशोऽध्यायः वाल्मीकिरुवाच एवं विलपतस्तस्य विप्रस्य जगति पते अकालजलदोभ्यागाद् गर्जयन्श्च दिशो दश ववौ वायुः खरस्पर्शः कम्पयन्निव पर्वतान् बृहल्लसनमहाविद्युत् स्वनेनापूरयन् दिशः यावन्मासं ववर्षैवं महीपूर्णजलाभवत् नासौ विज्ञातवान् किञ्चित् पुत्रशोकाग्निता पितः न पपौ बुभुजे पुत्र पुत्र इति ब्रुवन् एवं विलपतस्तस्य मासो यो विगतस्तदा श्रीकृष्णवल्लभो मासः सोऽभवत्पुरुषोत्तमः अजानतोऽपि तस्यासीत् पुरुषोत्तमसेवनं अजानतो पुरुषोत्तम तेनात्यन्तप्रसन्नः सन् प्रादुरासीत् धरि स्वयं नवीन जल दस्यामो वनमाला विभूषितः प्रादुर्भूते जगन्नाथि विलीना घनराजयः ततो ददर्श विप्रोऽसौ श्रीकृष्णं पुरुषोत्तमम् सहसां कगतं पुत्र देहं भुवि सपत्नीको नश्चक्रे दण्डवच्छ्रीहरिं मुदा भूत्वा संस्थितः श्रीहरेः पुरः श्रीकृष्ण एव शरणं मम श्रीकृष्ण एव शरणं ममास्तु विचिन्तयन् भगवानपि तुष्टः सन् पुरुषोत्तमसेवनात् अवोचन् मधुरां वाणीं बृहत्पीयूषवर्षिणीम् श्रीहरिरुवाच भो भो सुदेव सुदेवधन्योऽसि भाग्यवान् साम्प्रतं भवान् त्वद्भाग्यं वर्णितं को वा समर्थो भुवनत्रये शृणुवत्स प्रवक्षेऽहं यत्ते भावितपूधनस्ते अतः परं न सन्देहस्तव पुत्रोद्भवे सुखं मयायं ते सुतो दत्तः प्रसन्नेन द्विजोत्तमं तव पुत्रसुखं दृष्ट्वा देवगन्धर्वमानवाः सस्पृहास्ते भविष्यन्ति प्रसादान्मे द्विजोत्तमम् अत्र ते कथयिष्यामि इतिहासं पुरातनं मार्कण्डेयेन मुनिना पुरा प्रोक्तं रघुं नृपम् पुरा मुनीश्वरः कश्चित् धनुर्नामा महामनाः पश्यन् पुत्रादि पुत्रादिनिर्दग्धान् अभूत। अमरं पुत्रमन्विच्छन्स्तवस्तेऽपे सुदारुणं सहस्राब्दे गते काले देवास्तमब्रुवन्मुनिं वरं वरय भद्रन्ते यस्ते मनसि वाञ्छितः प्रसन्नास्मो स्मो वयं सर्वे तीव्रेण तपसा तव इति देववचः श्रुत्वा सुतृप्तोऽमृतसन्निभं वव्रे तपो धनः पुत्रम् अमरं बुद्धिशालिनम् तमूचुर्निर्जराः सर्वे नैवं पुनराह भूतले पुनराहमुनिर्देवान्निमित्तायुर्भवत्विति सुराः प्रोचुर्निमित्तं किं वदसोऽप्यवदन्मुनिः असौ महान् गिरिर्यावत् तावदाजुर्विधीयताम् एवमस्तुतिसम्पाद्य सेन्द्रादेवा दिवं ययुः धनुःशर्मासुतं लेभे कालेनाल्पेन तादृशम् सपुत्रो बवृधे तस्य तारापतिरिवाम्बरे प्राप्ते तु षोडशे वर्षे पुत्रं प्राह मुनीश्वरः हे वत्समुनयः सर्वे नावज्ञेयाः कदाचन शिक्षितोऽपि तथा पुत्रः सोद्वेगा न करोन्मुनीन् निमित्तायुर्बलोन्मत्तो ब्राह्मणानवमन्यते कदाचिन्महिषो नाम मुनिः परमकोपनः पूजया मासविधिवत् शालग्रामशिलां शुभां तदानीं स समागत्य तामादाय त्वरान्वितः चिक्षेप निज चाञ्चल्यात् कूपे पूर्णजले हसन् ततः क्रोपसमाविष्टः ततः क्रोधसमाविष्टः कालरुद्र निमित्तायुरयं देवैः कृतोऽयं धनुषः सुतः परेणाशु चिन्तापरेणाशु निःश्वासः प्रकटीकृतः महिषाः कोटिशो जातास्तैर्गिरिशकलीकृतः तदानीमृदिमापन्नो मुनिपुत्रोऽतिदुर्मदः धनुःशरमातिदुःखेन विललापमुहुर्मुहु विलप्य बहुधा विप्रो गृह्यपुत्रकलेवरं प्रविवेशचितावह्नौ पुत्रदुःखातिपीडितः एवं हठाप्तपुत्रायै न सुखं यान्ति कुत्र चेत् वैन ते येन यो दत्तनयोऽयं तपो धनं तेन पुत्रवान् लोके स्पृहणीयो भविष्यसि पुरुषोत्तममाहात्म्यात् प्रसन्नेन मया नघ सुचिरं स्थापितोयं हि तनयः सुखदोस्तुति गार्हस्यमतुलं भुक्त्वा सः पुत्रेण सर्वदा ततस्त्वं ब्रह्मणो लोकं गत्वा तत्र महत्सुखं दिव्याब्दवर्षसाहस्रं भोक्त्वा गन्तासि भूतले चक्रवर्ती भविष्यसि द्विजोत्तमीतले समृद्धबलवाहनः संवत्सराणामयुतं राज्यं भोक्षसि पार्थिवम् गौतमीयं तवाङ्गार्ध हारिणी महिषी तद पतिसेवा रतानित्यं नाम्ना च गुणसुन्दरि चत्वारस्ते सुता भाव्या राजनीतिविशारदा कन्यैका च महाभागा सुशीला सुवरानना भुक्त्वा भोगान् महाभाग सुरासुरसुदुर्लभान् कृतार्थोऽहं धरापीठे इत्यज्ञानविमोहितः अतिदुस्तरसंसारविषयाकृष्टमानसः यदा विस्मरसे विष्णुं संसारार्णवतारकम् अयं ते तनयो विप्र शुको भूत्वा तदा वने वटवृक्षं समाश्रित्य त्वामेवं बोधयिष्यति वैराग्योत्पादकं पद्यं पठन्नेव मुहुर्मुहुः श्रुत्वा वाक्यं शुकप्रोक्तं दुर्वना गृहमेष्यसि अथ चिन्तार्णवे त्यक्त्वा विषयजं सुखं वाल्मीकिस्त्वां समागत्य बोधयिष्यति भूसुर तद्वाक्यैश्चिन्नसन्देहस् त्यक्त्वा हरेपदं हरे गमिष्यसि सपत्नीकः पुनरावृत्तिवर्जितं वदत्येवं महाविष्णौ समुत्तस्थौ द्विजात्मजः दम्पतीतौ सुतं दृष्ट्वा महानन्दौ बभूवतुः सुराः सर्वेऽपि सन्तुष्टां ववृषु न नाम शुकुदेवोऽपि श्रीहरिं पितरौ च तौ गरुडोऽप्यतिसंहृष्टं दृष्ट्वा ससुतं द्विजं ब्राह्मणश्चकितो भूत्वा न नाम श्रीहरिं तदा बद्धाञ्जलिपुटो विप्रः प्रोवाच जगदीश्वरम् चत्वार्यब्दसहस्रं चत्वार्यब्दसहस्रमेव चत्वार चत्वार मनिषम् तप्तं तपो दुष्करं तत्रागत्य वचस्त्वया निगदितं हरे हरिकर्कषं हे वत्साध्यं तव सुतुवाक्यं व्यतिलङ्घयत् स्मृतसुतोत्थाने च हितुं वद इति श्रीबृहन्नारदीयपुराणि पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे सुदेवपुत्रजीवनं नाम अष्टादशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु